गणेशपुराणम् उपासनाखण्डम् अध्यायं फोर्टि टु व्यास उवाच कृतवान् सगदे सगदेतास्मिन् कलाधरे कथमानीय दत्तास्मै मूर्तिश्चिन्तामणे शुभा एतत्कथय मे सर्वम् विस्तार्यचदुरान लीला गजाननीशृण्वन् न दृप्यामि समासदः ब्रह्मोवाच तस्मिन् गदे यदकरोत् स दैत्यो मुनिसत्तमा तत्सर्वं कथयिष्यामि शृणुष्व वहितो मुने दूदाउ सम्प्रेषयामास मन्दराद्रिस्थितं शिवम् अशिक्षयच्छिवं गत्वा ब्रूदं मद्वाक्यमादराद मूर्तिश्चिन्ताह्मणेस्तेऽस्ति गृहे सर्वार्थदाशुभा देहितां दैत्यराजाय सां नैव गिरिजापदे पाताले स्वर्गलोके वा मर्त्ये वा पुनरद्भुतं तत्सर्वं तेन दैत्येन श्यानीदं स्वगृहे तलाद शीघ्रमानीयतां देव यावो दैत्यं महाबलं न यदा साम्ना तदा दैत्यः पराक्रमी ग्रहीष्यदि बलात्तां तु ततो दुःखमवाप्स्यसि यदि दैत्यवच श्रुत्वा जग्मतुस्थौ शिवं प्रदी। आहतुस्थौ महादेवं दैत्यराजेन शिक्षितम् युद्धं दूदवचृत्वा त्रिनेत्र क्रोधमूर्च्छितः उवाच दूधौ दूदौ वामिधि कृत्वा क्षमे वचः कामस्येव भवेद्भस्म नो चेद्वां नात्र संशयः किं कार्यं ते तदैत्येन त्रिणीभूतेन मे विभोः आयादु युद्धमेवास्तु मर्दुकामो ममान्तिकम् नेयम् मूर्तिष्ठेन शक्या प्राप्तुं जन्मशदैरपि प्रलयाग्निः पतङ्गेन किं शान्तिमधिगच्छति मेरो पांदो किमो जसा असंख्य जल निष्काचुष्क महोदधी वाचा श्रुवा शांगरी वाणी दैत्यौ याद यहां अभ्रूदां स्वामिनं वाक्यं शम्भुना यदुदीरितं तदा दैत्यो वाक्यार्थको विदः क्रोधानलेन दीप्तोसौ त्रैलोक्यं प्रदहन्निव आजापयच्चास्वसे चुंग सहसा सेना मंदराचल भूतल छादयास निमरिया अनेकसूर्यस विकोशस्त्रसै गर्जन्ती खनवद्घोरं मृत्योर्मानसकम्पिनीं दैत्यस्त्रिपुरमारुह्य विमानसदृशं महद मनोवेगं ततः पश्चाज्जिखांसु शम्भुमायययौ चायुकवजं चारुकवजं कुण्डले गदे मुक्ता माला मुद्रिकाश्च कडिसूत्रं च काञ्चनं मुकुडं रत्नखचिदं महार्घं बिभ्रदुल्लसद यस्य शब्देन महदा चकम्पे हरमानसं तद्धनुः स निषङ्गं च कौर्मं खेडमसिन्दृढं शुशुभे चक्रिका दिव्या वहद्यां दैत्यपुङ्गवः गायमानानर्तमाना गन्धर्वाप्सरसां गणाः बन्धिनश्चारणाश्चापि ययुरस्याग्रदो मुदा शङ्करो दूतवाक्येन श्रुत्वा दैत्यं ममागतम् असङ्ख्यव्रतसंयुक्तम् युयुत्सुम् कालकर्षितं चूलपाणिरपि तदा सम्पूज्य द्विरदाननम् परिक्रम्य पुरस्कृत्य बलं बलाद आययौ क्रोधदीप्ताक्षस्वस्थलाद्गणमण्डलम् ीरा वीरशब्देन नादयन्दो दिशो दश अभिजग्मुःप्रहरणै परस्परवधेप्सवः अभूदा मिलिदे सेनां रजस्तिमिरसङ्गुले स्वपरज्ञानरहिते जघ्नदूरणमूर्धनी अभवत् तु मूलं युद्धम् न प्राज्ञायद किञ्चन गजाश्वरथवीराणाम् हतानां श्रोणितोऽक्षिते शान्तेरजस्य युध्यन्तवीरावीरैः पृथक् पृथक् केचित्प्रासकेऽपि खड्घैः केचिद्बाणैः शिलाशितैः रिष्टि भी जित, जित परसुतो रुष्टिर्मुिकेजिके केजिपरशु तोम् तत्रवीरायाना चादीना आश्रृनदी सकेशवाहिनी खेडकूमा खड्गम शिकमलूषणा चत्रावर्ताघोरतराकबन्धवृक्षवाहिनी वीरसन्तोषजननी गृध्र गोमायुहर्षकृत दृष्ट्वा नदीं तु गिरिशो ययौ दैत्यान्तिकम् बली दैत्योऽपित्रिपुरारूढो ययौ तस्य पुरः नायकौ सङ्गतौ दृष्ट्वा द्वन्द्वशोऽन्ये परस्परं अव्याकुले युयुधिरे दयिते या शाम्भवास्तदा न प्रहरणैर्दिव्यैः शस्त्ररस्त्रायर्द्रुमैरपि तेषां युद्धानि नामानि कथयिष्ये समासतः इति श्रीगणेशपुराणे उपासनाखण्डे युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ओ